श्रीगणेशाय नमः वरेण्य उवाच ज्ञाननिष्ठा कर्मनिष्ठाद्वयं प्रोक्तं द्वयाः अवधाच वदहि कं मे निःश्रेयसरन् अस्मिन् शराचरे स्थित्यौ पुरोक्ते द्वे मयाप्रिय बुद्धियोगेन वैधयोगेन कर्मणाम् अनारम्भेण वैधाना निष्क्रियः पुरुषो भवेत् न सिद्धिं यातिमन्त्यगात् केवलात् कर्मणा नृप कदाचित् क्रियः कोऽपि क्षणं अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म चकार्यते कर्मकारीन्द्रियग्राम नियम्यास्ते स्मरन् तद्गोचरान् मन्दचित्तोऽधिकाचारः सभण्यते तद्ग्रामं संनियम्यादौ मनसा कर्मचारभेत् इन्द्रियैः कर्मयोगो यो वितृष्णः सफरो कर्मान् निच्छा कृतन्द् यत् कर्मणो नैव असमर्प्य निबध्यन्ते कर्म तेन जना मयि कुर्वीथ ततं विकर्मा नाशो सङ्गो मदर्पणं कर्माणि तानि बध्नन्ति न सवासनमिदं कर्म बध्नापि देहिनं बलात् वर्णान् सृष्ट्वा वदेहञ्च स यज्ञान्स्तान् यज्ञेन लज्जता मेषः सुरानुष्ठानेन प्रीणध्वं सुरास्तेभध्वं परमं स्थानमन्योन्यत्प्रीणता स्थिरम् इष्टादेवाः प्रदास्यन्ति भोगानिष्ठान् सुतर्पिताः तैर्दत्तान्स्थान्नस्तेभ्यो दत्त्वा भुङ्क्ते सुतस्करः हुतावचिष्टभोक्तारो मुक्तास्युः सर्वपकपातकैः अदन्त्येनो महापापाः आत्महेतोपजन्दि ऊर्जो भवन्ति भूतानि देवादन्नश्च संभवः यज्ञाच्च देवसम्भूतिस्तदुत्पत्तिश्च वैधतः ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्म समुद्भवः अतो यज्ञे च विश्वस्मिन्सितं मां विद्धिभूमिव संस्कृतीनां महाचक्रं क्रामितव्यं विचक्षणैः समुधाप्रणिति भूपेन्द्रियक्रीडो समो जनः अन्तरात्मनीयः प्रीत आत्मा नरो यस्यात्रस्यार्थौ नैव संग्रहाय हि लोकानां तादृशं कर्मचारभेद श्रेयान्यत्कुरुते कर्म, श्रेयान्यत कर्म तत्करोत्यखिलो जनः मनुते यत्प्रमाणं सौ विष्टपेमेन साध्योऽस्ति कश्चिदर्थो नरादिप अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहं न कुर्वेऽहं कर्म स्वतन्त्रो रसभावितः करिष्यन्ति मम ध्यानं सर्वे वर्णामहामते भविष्यन्ति ततो लोका उच्छिन्नः सम्प्रदायिनः हन्ता लोकस्य विधाता शङ्करस्य च कामिनो हि सदा कामयि अज्ञानात् कर्मकारिणः लोकानां सङ्ग्रहायै तद्विद्वान् कुर्यादसक्तधीः विभिन्नत्वमतिञ्जय्यादज्ञानां कर्मचारिणां योगयुक्तः सर्वकर्माण्यर्पयेन्मयि अविद्या गुणसाचिव्यात् कुर्वन् कर्माण्यतीन्द्रितः अहङ्कारान् मन्दबुद्धिरहं कर्तेति योऽ ब्रवीत यस्तु वेत्यात् मनस्तत्त्वं विभागा गुणकर्मणोः करणं विषये वृत्तमिति मत्वा न सज्जति कुर्वन्फतलं नित्यनयमित्यकं तस्मान्मयि कर्मार्पयेद्बुधः त्यक्त्वाहं ममता बुद्धिं पराङ्गतिमवाप्नुयात् भक्तिमन्दो ये मयविदं शुभम् अनुतिष्ठन्ति ये सर्वे मुक्तास्ते किल कर्मभिः ये चैव नानुतिष्ठन्ति अशुभाः चेत् सः ईर्ष्यमाणान् महामूढान् द्रष्टान्स्तान् विद्धिमे रिपून् तुल्यं प्रकृत्या कुरुते कर्म यज्ञानवानपि अनुयाति यतामेव गृहस्तत्र मुधा मतः कामश्चैव तथा क्रोधः स्वानामर्थेषु जायते नीतयोर्वश्यतां ज्ञायादस्य विद्वंसकौ यतो यस्तो गुणो निजो धर्मः साङ्गादन्यस्य धर्मतः निजे तस्मिन् वृत्तिश्रेयः परत्र भयदः परः वरेण्य उवाच उमानत्कुरुते पापं सहिक्येन नियोज्यते अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव श्रीमद्गजान्न उवाच कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ नयन्तौ वश्यदां लोकं विद्वद् एतौ द्वेषिनौ वरौ आवृणोति यथा माया जगद्बाष्पौ जलं यथा वर्षामेकौ यथाभानु तद्वत्कामोऽखिलान् शरुडप्रतिपत्तिमतो ज्ञानं वषादितं सततं विषा इच्छात्मकेन तरसा दुष्पूरेण च शुष्मिणा आश्रित्य बुद्धिमनसि इन्द्रियाणि सतिष्ठति तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ तस्मान्नियम्यतान्यादौ समनांसि नरोजयेत् ज्ञानविज्ञानहयोः शान्तिकरं पापं मनोभवम् अतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः परा हिपुद्धिरात् बुद्धि पर मुद्व आम संस्त्यात्मात्मत्मा शत्रु काम परम पद्त्याद तत्ति श्रीमद्गणेशीतासुपनिषदगर्भासु योगा वृतात शास्त्रे श्रीमदादी श्रीमदेशरे महा महापुराणे उत्तरखंडे पारचरिते श्रीमद्गजाननवेण्य संवाद कर्मयोगो नाम अद्वितीयोऽध्यायः मङ्गलमूर्ति मोर्या